प्रधानमन्त्री श्रूयन्तां प्रवाचक परमानन्दझा प्रधानम प्रथमं मुख्यवार्ता प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्रमोदी देशे कोविड महामार्या साम्प्रतिकीं स्थितिं समैक्षता तन्निरोधि मसूरणस्य निर्माणोत्तरं जनसाधारणाय यथाशीघ्रं सुलभतायै प्रयासस्य आवश्यकतां च प्रत्यत औषध भारत औषध महा देशे स्तन पंच इख्य कोविड निरोधी मसूरण सेरण नैदानिकवीय परीक्षणा अन्मति प्रदत्ता गडकरी केन्द्रीय मग परिवहन राज मंत्री नितिन गडकरी पराममृष्टन याष्ट्रे जलाप्ला संकट से थाई समाधानार्थं राज्य विद्युत वितरण तन्त्रमेकं निर्मातव्यम् आईपीए न्यूजीलैण्डे सद्य समायोजितेष् प्रधानमंत्री प्रधानमन्त्री जेसिंडा अर्डर्न पुनरेकवारं विजयिनी जाता आईपीएल क्रिकेट स्पर्धा मालिकायां गतदिवसे दबई नगर्यामायोजिते द्वन्द्वे बैंगलूरू वृन्देन राजस्थानदलं सप्तभि क्रीडकै पराजितम् इदानीं वार्ता विस्तरेणा प्रधानमन्त्री श्री प्रधानमन्त्री श्रीनरेन्द्रमोदी देशे कोविड महामार्या साम्प्रतिकीं स्थितिं समैक्षता तन्निरोधि मसूरणस्य निर्माणोत्तरं जनसाधारणाय यथाशीघ्रं सुलभतायै प्रयासावश्यकतां च सबलं प्रत्यपादयत् गतदिवसे समायोजिते समीक्षोपवेशने श्रीमोदिना कथितं यद्देशे दर्षकोविड प्रकरणानि अनुक्रमं न्यूनता न्यूनतामापद्यमानानि दृश्यन्त भारते एतन्निरोधाय विशिष्य त्रयाणां मसूरणानां परीक्षणकार्य प्रगतिपथारूढं विद्यत ए मसूरणद्रयस्य परीक्षणं तृतीयचरणस्य च द्वितीयचरण सम्प्राप्तमस्ति ततः पूर्व कोविड महामारीम अधिकृत्य संघटितेन राष्ट्रिय विशेषज्ञ वृन्देन राज्य प्रशासनै इतरै सम्बद्ध पक्षैश्च सार्ध सम्भूय मसूरणानां भाण्डारण वितरण क्रियान्वयनानां विस्तृतं प्राग्रूपं प्रधानमन्त्रिण पुरस्तात् प्रस्तुतम् अत्रान्तरे भारतस्य औषध देशे स्पृत्निक पञ्च इत्याख्यस्य कोविड निरोधि मसूरणस्य द्वितीय तृतीय चरणयो नैदानिक मानवीय परीक्षणार्थं डॉ रेड्डीज़ प्रयोगशालायै रूस प्रत्यक्ष निवेश च अनुमति प्रदत्तास्ति कोविड परीक्षण कोविड रूस देशेन विकसितं विद्यते तत्र च अस्य द्वितीय तृतीय चरणयो नैदानिक परीक्षणं जातम् इदानीं भारते चास्य नैदानिकं परीक्षणं नैकेष् केन्द्रेष् विभिन्नस्तरे विधास्यते केन्द्रीय मार्ग परिवहन राजमार्ग मंत्री नितिन गडकरी न्यगादीत् यन महाराष्ट्रे संकटस्य स्थायि समाधानाय राज्य जलविद्युत् वितरण तन्त्रमेकं विनिर्मातव्यम् एतेन राज्यस्य द्र्भिक्षग्रस्तेष् क्षेत्रेष् जलापूर्तो जलाप्लावकटस्य सम्चित प्रबन्धन च सुमहत्साहाय्यं सम्पत्स्यतर श्रीगडकरिणा सन्दर्भेऽस्मिन् राज्य मुख्यमन्त्रिण उद्धव ठाकर्याय राष्ट्रवादि कांग्रिल प्रमुखाय शरद पवाराय च पत्रं विलिख्य शीघ्रातिशीघ्रं पदक्षणार्थं तौ आगृहीतौ न्यूजीलैण्डे सद्य समायोजितेष् संसदीय निर्वाचनेष् प्रधानमन्त्री जसिंडा अर्डर्न पुनरेकवारं विजयिनी संजातास्ति निर्वाचनेष् तस्या नेतृत्वयुतेन मध्यवामपन्थिना लेबरपार्टीति दलेन प्रबलं मतबाहुल्यं प्राप्नुवता ऐतिहासिकी विजयश्री समासादिता विजयेऽस्मिन् तद्देशे कोविड महामारीं विरुध्यते शासनाधिरूढ दलस्य सफल प्रयासानां महती भूमिका वर्ण्यता विंशति प्रतिविंशति क्षेप चक्राणाम् इण्डियन् प्रीमियर लीग क्रिकेट प्रतिस्पर्धा मालिकायां गतदिवसे दबय्यां रॉयल चैलेंजर्स बैंगलूरूव रायस्थानदलं सप्तभि क्रीडकै पराजितमस्ति